श्रीमद्भागवत् महापुराणं पञ्चमस्कन्ध अथ पञ्चदशोऽध्यायः भरत्किवंशकवर्णन् श्रीशुकुवाच भरतस्यात्मजसुमतिर्नामाविहतो यमुहभावके चित्पाखण्डिनऋषभं पदवीमनुवर्तमानं चानार्याम् अवेदसमाम्ना तां देवतां स्वयमनीषया पापीयस्या कलौ कल्पयिष्यन्ति तस्माद्वृद्धसेनायां देवताजिन्नां पुत्रोऽभवत् अथा सूर्यां तत्तनयोदेवद्युम्नस्ततो धेनुवत्यां सुतः परवेष्टि तस्य सुवर्चलायां प्रतीह उपजात य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषम् अनुसस्मार प्रतिहासु वर्चलायां प्रतिहर्त्रा दयस्त्रयम् आसन्निद्या कोविदाः सुन्व प्रतिहरतु स्तुत्यामज भूमानावजनं निषाताम् वं न ऋषिकुल्यायां मद्गीतस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुक्तायां हृदयज आसीद्विभू विभोरत्यां च पृथुषेण तस्मान्नम् आकुत्यां जज्ञे नक्तादृतिपत्रो ज्ञयो राजर्षिप्रभर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहेशतत्वस्य कलात्मवत्वादिलक्षणेन महापुरुषतां प्राप्तः स वैश्वधर्मेण प्रजापालनपोषणप्रीणनं प्रीणलोपलालनूनाम्नानुशासनलक्षणे नेद्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्षलक्षणेन ब्रह्मविचरणानुसेवयापादीत भगवद्भक्तियोगेन चाभीक्षणसः परिभावितातिशुद्धमतिरूपरं तानात्म्य आत्मनि स्वयमुपलभ्यमानं ब्रह्मात्मानुधवोऽपि निर्भमानम् एवावं निमजुगुपत् तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति गयं नृपक प्रतियाति कर्मभि यज्वाभिमाली बहुविद्धर्मगोप्तां समागतश्री सदसरस्वतीसतां सतां। कोऽन्यों भगवत्कलामृते यमभ्यसिञ्चन् पर्यामुदा सती सत्याशितु दक्षकन्या सरिद्भिः यस्य प्रजानां दुधेधराशिषो निराशिषो गुणं पश्यन् स्नुतोधाः छन्दास्य कामस्य च यस्य कामां दुदुः राजन्हुरुतो वरीं नृपाः सत्यञ्चिता युधि धर्मेण विभ्राजदाशिषां सृष्टमं संपरे च यस्याध्वरे भगवान्नध्वरात्मां मघोनिमाद्यतिरुसोमपीथे शद्धा विशुद्धां चलभक्तियोगसमर्पितेद्या फलमाजहार यत्पीडनाद्बर्हिषीं देवत्रियं मनुष्यवीरु तृणमाविरिञ्चात् प्रीयेत सद्य स विश्वजीव प्रीत स्वयं प्रीतिमगादगं गयं स्य गयाद्गयन्त्यां चिरतसुगतिरबोधं वरोधन इति त्रयपुत्रा बभूव चिद्रुधा दुर्णायां समाजजनिष्ठ तत् उत्कलायां मरिचिर्मरिचिर्विन्दुमत्यां बिन्दुमानोदपद्यत तस्मात् सर्गायां मधुर्नामाभुवन्मधो सुमनसे वीरव्रतस्ततो भूजायाम् मन्थो प्रमन्थो जगाते मन्थो सत्यायां भैरवनस्ततो दूषणायां त्वष्टा जनेश्च त्वष्टोर्विरोचनायां गिरिजो बिरिजस्य सतजेत्रवरं तत्र शतं कन्या च विशुच्यां किलजातं तत्रायं श्लोकः प्रयव्रतं वंशमिमं गिरिजश्चरमोद्भवः अकरो अकरोद्धत्यलं कीर्त्या विष्णुसुरगणं यथा इति श्रीमद्भागवतीमहापुराणे प्रभंसां चैतायां पञ्चमस्कन्दे प्रियव्रतं वंशानुकीर्तनं नाम पञ्चदशोऽध्यायः